मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं सिक्स्टीन् शेषादिदुःखवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच शेषपुत्रस्य माहात्म्यं कथयामि समासदः तच्छृणुष्वप्रजानाथयोग शान्तिप्रदायकम् एकदा कदा सत्यलोकस्थो ब्रह्माध्यानपरायणः बभूव सर्वजन्तूनाम् हितार्थम् मोहितः स्वयम् सदा सृष्टिर्मदीयेयमखण्टा जायते कथम् तत्र तस्य स्वनिःश्वासत्पुरुषः सप्रणम्य विधातारं तुष्टावविधैस्तवैः तमुवाच तदा ब्रह्मा किम् वाञ्छसि वदाशु मे ब्रह्मणो वचनं श्रुत्वा हर्षयुक्द पुमानभूद तं जगादप्रजानादं भक्ते नम्रात्मकन्धरः पुमानुवाच तव संभूदं पुत्रं मां पालय प्रभो देहि नाम तथास्थानं भक्ष्यं नानाविधं विधे अन्यत्सुखकरं सर्वं देहि नमोस्तुदे नमोऽस्तु दे त्वं गदि सर्वभूतानामधुना मे विशेषतः तस्य तद्वचनं श्रुत्वा ब्रह्मा स्नेहयुतो भवद स जगादतमालिङ्ग्य चुजुम्बे पुत्रवत्सलः ब्रह्मोवाच मायादर्शनमात्रेण वर्धसे त्वं महामगे मायाकरस्ते विख्यातमदो नाम भविष्यति यद्यदिच्छसि तत्तत्ते सफलं च भविष्यति त्रैलोक्ये वसति गदिरव्याहदा भवेद् चतुपदार्थसम्भूदं सदा वश्यं भविष्यति चतुर्विधमयेभ्यस्ते मरणं न कदा भवेद् युद्धे च दुर्विधं सर्वं प्रजेष्यसि न संशयः सदारोग्यादिसंयुक्तो भविष्यसि मदात्मजा ब्रह्मणो वचनं श्रुत्वा हर्षिदो भूत् स्वयं माया करप्रणम्यैव तं ययौ स्वेच्छयाचरन् तदोदानवमुख्यश्च विप्रचित्तिः प्रदापवान् तं दृष्ट्वा बलसंयुक्तम् समागत्य ननामसः ज्ञात्वा वृत्तान्तमेदस्य मायाकरस्य दुर्मदिः जगाद तम् पुनःसोऽपि विप्रचित्तिः प्रदापवान् विप्रचित्तिरुवाच मायाकरमहाभागशृणु मे परमं वजः वराः प्राप्तास्त्वया सर्वे दुर्लभा नात्र संशयः तेषाम् भोगप्रकर्तव्यस्त्वया नित्यम् महामदे तदा शोभायुधा जाता वरास्ते नान्यधा प्रभो यथा रूप वयोयुक्ता नारी स्वपदिना युता नित्यं भुक्ता विशेषेण शोभते दीवमानता मिलिता विविधा भोगा भुक्ताश्चेत् सार्थकं भवेत् निक्षिप्ता भोगहीनास्ते शपन्ति पुरुषं सदा अधो वरान्महाभागसाधयस्वविशेषदः नो चेत्ते त्वां शपिष्यन्ति वरा भोगविहीनदः दा वयं दानवमुख्याश्च त्वदधीना भवामहे अस्माभिर्बलसंयुक्तैर्भुङ्क्ष्वभोगं महाबल दानवा बलसंयुक्ता अजेया सर्वभावदः त्वदाज्ञावशगानाध चरिष्यन्दिन संशयः एवं माया करस्तेन बोधितो दुष्टधी स्वयम् तदधीनो बभूवापि ययौते या नरसतलं तत्र दानवमुख्यैश्च मिलितैर्यमसन्निभैः तैर्मानिदो विधे पुत्रो माया करस्तुतोषः ततः शुक्रं समानीयप्रणदा दानवा विधे ब्राह्मणैरभिषिक्तं तं करयामासुरादराद असुराणां महाराजो बभूव ब्रह्मणः सुतः माया शुशुभे सर्वेभ्यो भयदायकः नानाभोगान् प्रभुञ्जानो बलेन गर्विदो भवद अमन्यतासुराधीश आत्मनकृतकृत्यतां तदो दानवमुख्यैः जित्वा पृथ्वीं ससागरां तदो देवगणाञ्जेत्वेन्द्रासने संस्थितो भवद तदसि विरे सर्वे दानवास्थं विशेषतः स्वर्गभोगकरा भूत्वा हर्षिता स्वजनैः प्रभो तदशिवं समागम्य सयुद्धा युद्धा योद्यदो भवत त्यक्त्वा कैलासमादौ स पपाल शङ्कर तदो राजे दानवाधिपः त्यक्त्वा विकुण्ठमेवं स विष्णुः पपालभीदिदः तदशान्तिधरं वीक्ष्य तमोचुर्दानवाः पुनः जयत्वं त्वं सत्यलोकष्ठम् ब्रह्माणं देवनायकं सुरेभ्यः सर्वदा स पक्षगश्च पितामहः असुराणामहो हन्दा न समो वरुतदेकदा तमाश्रित्यमहादेवादयो भूवंश्च संस्थिताः कालं प्राप्य महावेगा मारयिष्यन्दि नः खलु त्वया सर्वं जिदं राजन् तदपि पश्य चेष्टितं ब्रह्मणा दूतवर्येण सत्कृतो न कदा भवान् मायाकरस्ततस्तेषां वचस्रुत्वा सुरस्वयम् सत्यं विचाल्य धादारमभूजेदुं समुद्यतः दानवैर्ब्रह्मलोके तमागतं वीक्ष्य वैविधिः शोकयुक्तः पपालासौ देवौ कै संवृदः प्रभुः ततः स सत्यलोकस्तः शुशुभेतीव तत्क्षणादनवान् मानयन् दैत्यस्सहतैर्बुभुजे सुखं तदः सत्यलोके च कैलासे वैष्णवे पदे सौरे शाक्तेऽन्यदेवानां पदेष्व स्थापयत्स्वकान् पुनर्बभौ समागम्य संस्थितो नगरे स्वके प्रपञ्चाख्ये महादैत्यो दैत्यपैः समृदो बभौ तदो दानवमुख्यांश्च पादालजने सुरः प्रास्थापयच्छते सर्वे गदा सर्वे समन्विताः तैर्जिदा सर्पराजास्ते शेषस्ताञ्चरणं ययौ स्वीकृत्य करभारं स संस्थितो नागपैर्वृतः तथापि दानवास्तत्र संस्थिता भयदायकाः नागानधर्शयन् सर्वे यमकालनिभाबलादर् तदोदिदुःखितशेषसस्मारगणनायकं निर्विघ्नार्थं प्रजानाथ पुत्रभावार्थमादराद अन्तर्ध्यानेन विघ्नेशं तोषयामासनागपः ततो वर्षे गदे पूर्णे प्रकडो भूद्गजाननः ृदयाद् बहिरेवासौ निर्गत्य तमुवाचः पश्यशे शमहाभागध्यानजं ते सुतं च मां दक्ष उवाच स्वल्पायासेन हैरम्भकथं पुत्रो बभूवः कथयस्वमहायोगिन् शेषस्य चरितं महदत् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शेषादिदुःखवर्णनं नाम षोडशोऽध्यायः